नाब्राह्मणस्तातचरं बुभूषेदिच्छन्निमं लोकमममं च जेतुं विनीतधर्मार्थमपेतमोऽहं लब्ध्वा द्विचन्नुदति नृपः सपद्मां चरन्नैश्वे सन्धर्मं प्रजापालनकारितं नाध्यागच्छद्बलिर्लोके तीर्थमन्यत्र वैत्युचात् अनूनमासीदसुरस्य कामैर्वैरोचने श्रीरपि लब्ध्वा महीं ब्राह्मणस्संप्रयोगा तेष्वाचरन् नाब्राह्मणं भूमिरियं सभूतिर्वर्णं द्वितीयं भजति चिराय समुद्रनेविर्नमते तु तस्मै ब्राह्मणश्चास्ति नैर्विनीतं कुञ्जरस्यैव सङ्ग्रामे परिगृह्याङ्कुशग्रहं ब्राह्मणेऽभिप्रहीणस्य क्षत्रस्य क्षीयते बलं ब्राह्मण्यनुपमादृष्टिः क्षात्रमप्रतिमम्बलं तौ यदाचरतः सार्धं तदा प्रसीदति यथा हि सुमहान् अग्निः कक्षं दहति सानिलः तथा दहति राजन्यो ब्राह्मणेन समं रिपुं ब्राह्मणेष्वेव ज्ञेधावी बुद्धिपरीक्षणञ्चरत् अलब्धस्य च लाभाय लब्धस्य परिवृद्धये अलब्धलाभाय च लब्धवृद्धय यथार्हतीर्थप्रतिपादनाय यशस्विनं वेदविदं विपश्चितं बहुक्षुतं ब्राह्मणमेव वासय ब्राह्मणेषु उत्तमावृत्तिस्तवनित्यं युधिष्ठिर तेन ते सर्वलोकेषु दीप्यते प्रथितं यशः